ब्रह्माण्डपुराणं मध्यभागम् अध्यायम् टेन् पितृराज्यकल्पः बृहस्पतिरुवाच सप्तैते जयतां श्रेष्ठा स्वर्गे पितृगणास्मृताः चत्वारो मूर्तिमन्तश्चत्रयस्तेषामूर्तयः तेषां लोकान्विसर्गं च कीर्तयिष्ये निबोधत या वै दुहितरस्तेषां दौहित्राश्च वये स्मृताः लोकाः सन्तानका नाम यत्र तिष्ठन्ति भास्वराः अमूर्तयः पितृगणास्ते वै पुत्राः विराजस्य द्विजश्रेष्ठा वैराजा इति विश्रुताः ये दे वै पितरस्तादयोगानां योगवर्धनाः अप्याययन्ति ये नित्यं योगा योगबले नदु श्राद्धैराप्यायितास्ते वै सोममाप्याययन्ति च आप्यायीत सोमो लोकानाप्याुदेश मानसी कन्या मेनानाम महागिरे पत्नीम बदपुत्रो यत प्रवर शोध क्रंचा से गिरे, गिरे सुतः तिस्रकन्यास्तु मेनायां जनयामास शैलराट अपर्णामेकपर्णां च तृतीयामेकपाटलां न्यग्रोधमेकपर्णादुपाटलं त्वेकपाटला आशिते द्वे अपर्णादुह्यनिकेदा तपोचरद शतं वर्षसहस्राणां दुश्चरं देवदानवैः समाचरद। आहारेकर्णे न्येकपर्ण सचरद पाटल नैकेदापाटला पूर्णे वर्षसहस्रे चाह वै प्रजक्रदुकात्यभाषद निषेधयन्ती सोमेधि मा दृश्रेहेन दुःखिता सा तथोक्ता तदा पर्णा देवी दुश्चरचारिणी उमेदिहि महाभागा त्रिषु लोकेषु विश्रुता तथैव नाम्ना तेन सौ कर्मणा एतत्तु त्रिकुमारीकं जगत्स्तावरजङ्गमम् ये, ये तासां तपसा सृष्टं यावद्भूमिर्धरिष्यति तपःशरीरास्ताः सर्वास्ति स्रो योगबलान्विताः सर्वास्ताः सुमहाभागास्सर्वाश्च स्थिरयौवनाः सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः उमाता साम्बरिष्ठा च श्रेष्टा च वरवर्णिनी महायोगबलोपेदा महादेवमुपस्थिता दत्तकश्चोशांस्तस्याः पुत्रो वै भृगुनन्दनः असि तस्यैकपर्णा पत्नी साध्वीपतिव्रता दत्ताहिमवदा तस्मै योगाचार्याय धीमते देवलं सुषुवे साधु ब्रह्मिष्टं ज्ञानसंयुता या वै तासां कुमारीणां तृतीया चैकपाटला पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता तस्यापि शङ्खलिखितौ स्मृतौ पुत्रा इत्येदावै इत्येता वै महाभागाकन्या हिमवदशुभाः रुद्राणी साधु प्रवरास्वैर्गुणैरतिरिच्यते अन्योन्यप्रीतमनसोरुमा शङ्करयोरथ श्लेषं संसक्तयोर् ज्ञात्वा शङ्किध किल वृत्रहा ताभ्यां मैथुनशक्ताभ्यामपत्योद्भवभीरुणा तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः अनायोरधि विघ्नं च त्वमाचर हुदाशन सर्वत्र गद एव त्वं न दोषो विद्यते तव इत्येवमुक्ते तु तदा वह्निना च पुमां देवत्समुत्सृज्य शुक्रं भूमौ व्यसर्जयत् तदो रुषितया सद्यशप्तोऽग्निरुमया तया इदं चोक्तवदि वह्निं रोषगद्गदया गिरा यस्मान्नाववितृप्ताभ्यां रदि विघ्नं उदाशन कृतवानस्य कर्तव्यं तस्मात् त्वमसि दुर्मदिः यदेवं विगतं गर्भं रौद्रं शुक्रं महाप्रभं। गर्भेत्वं त्वं धारयस्वैवमेषा ते दण्डधारणा स शापदोषाद्रुद्राण्या अन्धर्गर्भो हुदाशनः गनान गर्भं धारया मास वैद्विज स गंगाभिगम्या्रूयता सरिदुतमे सुमान सुमहान मे जायते गर्भधारणा मिताधो गर्भमीम धारय निमनगे प्रसादा च तनयो वरदस्ते भविष्यति तथेत्युक्त्वा तदा साधु सम्प्रदृष्टा महानदी तं धारयामास दह्यमानेन चेतसा सापि कृच्छ्रेण महदा विद्यमाना महानदी प्रकृष्टं व्यसृजद्गर्भं दीप्यमानमिवानलं रुद्राग्निगङ्गातनयस्तत्र जादोरुणप्रभः आदित्यशतसङ्काशो महात्ते जाः प्रतापवान् तस्मिन् महाभागे कुमारे जाह्नवीसुदे विमानयानैराकाशं पदत्रिभिरिवावृतं देवदुन्दुभयो नेदुराकाशे मधुरस्वनाः मुमुजुःपुष्पवर्षं च खेजरासिद्धचारणाः जगुर्गन्धर्वमुख्याश्च सर्वशस्तत्र तत्र यक्षा विद्याधरा सिद्धा किन्नराश्चैव सर्वशः सहस्रानि प्रवराश्च पदत्रिणः उपतस्तुर्महाभागमाग्नेयं शङ्करात्मजं प्रभावेण हदास्तेन दैत्यवानरराक्षसाः स हि सप्तर्षिभार्याभिरारादेवाग्निसम्भवः अभिषेकप्रिया ताभिर्दृष्टो वर्ज्यत्वरुन्थतीम् ताभिः स बालार्कनिभो रौद्रः परिवृतः स्वगभिरिव मातृभिः युगपत् सर्वदेवीभिर्दिसुर्जाह्नवीं सुतः षण्मुखान्यसृज्रीमांस्तेनायं षण्मुखस्मृतः तेन जातेन प्रतापवान् कृतिका वर्धिदोहि इदिख्या कृत्ति यस्र्तनकस्मा दसुरसूदन जृंभत दैत्याज्वाला कुकुला मुखाद्विगदिपराजिता क्रीडार्थं चैव स्कन्धस्य विष्णुना प्रभविष्णुना गरुडादधिसृष्टौ हि पक्षिणौ द्वौ प्रभद्रकौ मह्यूधकुक्कुडश्चैव पदाका चैव वायुना यस्य दत्ता सरस्वत्या महावीणा महास्वना अजस्वयं भुवा दत् मेषो दत्श शंभुना मया विहरणे विप्र गिर क्रौन निपाति तारकेसुरवरे सदीर्णे निपाति सेोपेन्द्रैर्मभागैर्दरग्निसुद प्रभु सेनापत्येन दैत्यारिरभिषिक्तः प्रदान् देवसेनापतिस्त्वेष पठ्यते सुरनायकः देवारिस्कन्धनस्कन्धः सर्वलोकेश्वरः प्रभुः प्रमथैर्विधैर्देवस्तथाभूदगणैरपि मातृभिर्विविधाभिश्च विनायकगणैस्ततः लोकास्सोमपदा नाम मरीचेर्यत्र वै सुताः तत्र ते देवास्तान् पूजयन्त्युद श्रुदा बर्हिषदो नाम पितरः ये तेषां मानसी कन्या अच्छोदा नाम निम्नगा अच्छौदं नाम तद्दिव्यं सरो यस्मात् समुद्धिता तथा न दृष्टपूर्वास्तु वितरस्ते कदाचन सम्भोदा मानसि तेषां पितृन्स्वान्नाभिजानति सात्वन्यं पितरं वव्रे तानधिक्रम्य वै पितृन् अमा वसुमिधि ख्यातं मैलपुत्रं नभश्चरम् अद्रिकाप्सरसायुक्तं विमानाधिष्ठितं दिवि सा तेन व्यभिचार्येण गगने नाप्रचारिणी पिदरं प्रार्थयित्वान्यं योगभ्रष्टापपातः त्रीण्यवश्यद्विमानानि पदन्दी सा दिवश्च्युता त्रसरेणुप्रमाणानि तेषु चावस्थितान्पितॄन् सुसूक्षमा प्यक्तानेवातायध्विवाचातापत चाप्यवाक्षिरा तैलुका साधु मैषीताबत ततः प्रसादयत्सा वैसीदन्ती त्वनया गिरा ऊचुस्ते पिधरकन्यां भ्रष्टैश्वर्यां व्यतिक्रमाद भ्रष्टैश्वर्यां स्वदोषेण पदसि शुचिस्मिते यैराचरन्ति कर्मणि शरीरैरिह देवताः तैरेव तत्कर्मफलं प्राप्नुवन्ति सदा स्मः सद्य फलन्ति कर्माणि देवत्वे प्रेत्यमानुषे तस्मात् स्वतपसः पुत्री प्रेत्य सम्प्राप्स्यसे फलम् इत्युक्तयादुपितरः पुनस्ते ध्यात्वा प्रसादं चे चक्रुस्तस्यास्तदनुकम्पया अवश्यं भाविनं दृष्ट्वा ह्यर्थमूचुस्तदातुतां सोमपाप्पिधरकन्यां रज्ञोऽस्यैव त्वमावसोः उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः कन्या सुविमाल्लोकान् पुनः प्राप्स्यसि भामिनि अष्टाविंशे भवितृत्वं त्वापरे मत्स्ययोनिच अस्यैव राज्ञो दुःखिदाह्यद्रिकायाममावसोः पराशरस्य दायादमऋषिं त्वं जनयिष्यसि सवेदमेकं ब्रह्मर्षिश्च दुर्धा विभजिष्यति महाबिषस्य पुत्रौ द्वौ चन्दनो कीर्तिवर्धनौ विचित्रवीर्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि चित्राङ्गदं च राजानं सर्वसत्त्वबलान्वितम् येथ पुनर्लोका न व्यसी व्यभिचारा पितृणसे जन्म अद्रिकायां राजद्रिकायां भविष्य कन्या भूतम्लोक्यसी एव मुक्त्वा जादा मुक्तुदा सेव अद्रिका यसुदा मुदा जामत्मुदा गंगा यमुन संग तो कन्या राजो वीर्ेण चि विरजादे लोका दिव्य चंद स्मृता पिद भास्कर योगिनी योगपत्नी चोगमाता तथा चवीता द्वाबरप्य अठावशति वध श्रीमो महायोगी तस्मिन् द्विजोत्तमाः व्यासादरण्यां शंभूदो विधूम इव पावकः पराशरकुलोद्भूतशुको नाम महातपाः स तस्यां पितृकन्यायां पीवर्यां जनयद्विभुः पुत्रान् पञ्च योगचर्या परिपूर्णान् परिश्रुतान् कृष्णौ गौरं प्रभुं शम्भुं तथा भूरिश्रुतं च वै कन्यां कीर्तिमदीं चैव योगिनीं योगमातरं ब्रह्मदत्तस्य चननी महिषी त्वनुहस्य सा आदित्य किरणोपेदमपुनर्मार्गमास्थितः सर्वव्यापि विनिर्मुक्तो भविष्यति महामुनिः त्रयये दे गाणाः प्रोक्ताश्चतुशेषान्निबोधत तान्वक्ष्यामि द्विजश्रेष्ठाः प्रभामूर्तिमदोगणान् उत्पन्नास्तु स्वधायां ते काव्याख्यग्नेः का सुताः पितरो देवलोकेषु ज्यो देर्भासि शुभास्वराः सर्वकामसमृद्धेषु द्विजास्तान् भावयन्त्युद यदेशा मानसी कन्या योगोत्पत्तिरिति श्रुता दत्ता सनत्कुमारेण शुक्रस्य महिषी तु एकशृङ्गेदिविख्यादा भृगूणां कीर्तिवर्धिनी मरीचिगर्भास्ते लोका समावृत्य दिवि स्थिताः ये देह्यङ्गिरः सः पुत्राः साध्यै संवर्धिताः पुरा उपहूता स्मृतास्ते वै पितरो भास्वरा दिवि तान् क्षत्रियगणा सप्त भावयन्ति फलार्थिनः एतेषा मनसि कन्या यशोदा नाम विश्रुता मदा जननी देवी खड्वाङ्गस्य महात्मनः यज्ञे पुरा गीता गाथा गीतैर्महर्षिभिः अग्नेर्जन्म तदा दृष्ट्वा शाण्डिल्यस्य महात्मनः यजम दिलीप ये पश्यता सत्यव्रतम आत्मा तेर्गजि ना आज्यनामिधरकर्दम से प्रजापते समत्पन्न सेना से सु लकिषु वैवर्था कामगोषु विहङ्गमाः एतान्वैश्यगणाश्राद्धे भावयन्ति फलार्थिनः एतेषां मानसिकन्या विरजा नाम विश्रुता यया तेर्जननी साध्वीपत्नी सा नहुषस्य सा च सुकाला नाम पितरो वसिष्ठस्य महात्मनः ऐरण्यगर्भस्य सुधा शूद्रास्तां भावयन्त्युदा मानसानां मदे लोका वर्धन्ते यत्र ते दिवि यदेश मानसि कन्या नर्मदा सरितां वरा सा भावयदि भूतानि दक्षिणापथगामिनी जननी सात्र सद्दस्योपुरुकुत्सपरिग्रहः यदेषामभ्युपगमान्मनुर्मन्वन्धरेश्वरः मन्वन्धरादौ श्राद्धानि प्रवर्तयति सर्वशः पितॄणामानुपूर्व्येण सर्वेषां द्विजसतमाः तस्मादेदस्वधर्मेण देयं श्राद्धं च श्रद्धया सर्वेषां राचतैः पात्रैरपि वा रचतान्वितैः दत्तं स्वधां पुरोधाय श्राद्धं प्रीणादिवै पितृन् सौम्यायने वाग्रयणे ह्यश्वमेधं तदप्नुयाद सोमश्चाप्यायनं कृत्वा शगणेर्वेव स्वतस्य च पितृन्प्रीणादि यो वंश्यः पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः पुष्टिं प्रजास्तथा स्वर्गं प्रयच्छन्ति न संशयः देवकार्यादपि सदा पितृकार्यं विशिष्यते देवताभ्यपितॄणां हि पूर्वमाप्यायनं स्मृतं न हि योगगतिसूक्ष्मा पितॄणां न पितृक्षयः तपसा विप्रसिद्धेन दृश्यते मास चक्षुषा इत्येते पितरश्चैव लोका दुहितरश्च दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति याश्चत्वारो मूर्तिमन्दस्तु त्रयस्तेषामूर्तयः तेभ्यः श्राद्धानि सत्कृत्य देवा कुर्वन्ति यत् मदः भक्त्या प्राञ्जलयः सर्वे सेन्द्रास्तद्गतमानसाः विश्वे चषिकताश्चैव कृष्णीजा शृङ्गिणस्तथा कृष्णाश्वेदाम्बुजाश्चैव विधिवत्पूजयन्त्युत प्रशस्तावादरसना दिवा कृत्या च मेखाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः अक्त्रिभृङ्ग् अङ्गिराद्याश्च ऋषय सर्वये वदे यक्षनागासुपर्णाश्च किन्नरा राक्षसैः सह पितृंस्ते पूजयन् सर्वे नित्यमेव फलार्थिनः एवमे दे महात्मानश्राद्धे सत्कृत्य पूजिताः सर्वान् कामान् प्रयच्छन्ति शतशोधसहस्रशः हित्वा त्रैलोक्यसंसारं जरामृत्युमयं तथा मोक्षं योगमथैश्वर्यं सूक्ष्मदेहमदेहिनां कृष्णं वैराग्यमानन्द्यं प्रयच्छन्ति पितामहाः ऐश्वर्यं विहितं योगमैश्वर्यं योग उच्यते योगैश्वर्यमृदे मोक्षकथञ्चिह्नोपपद्यते अपक्षस्येव गमनं गगने पक्षिणो यथा वरिष्ठसर्वधर्माणां मोक्षधर्मः सनातनः पितॄणां हिप्रसादेन प्रसादेन प्राप्यते स महात्मनां मुक्ता वैडूर्यवसांसि वाजिनागायुतानि च कोडिशश्चापि रत्नानि प्रयच्छन्ति पितामहाः युक्तानि मुक्ता वैडूर्यवन्ति च किङ्गिणीजालनद्धानि सदा पुष्पफलानि च विमानानां सहस्राणि युक्तान्यप्सरसाङ्गणैः सर्वकामसमृद्धानि प्रयच्छन्ति पितामहाः प्रजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उभोद्धातपादे पितृराज्यकल्पो नाम दशमोऽध्यायः ओ